मुद्गलपुराण खंडम वन वक्रुंडचरत अयटी मुद्देदूत संवाद श्रीगणेशा नम शौन उवाच श्रुद सूद महागकथिद परभुद चरद गणनाध से तेन तृप्ता वयं प्रभो शिवशक्रिमहावादं श्रुत्वा तृष्णा विवर्धते पुनश्च वदसूदत्वं गणेशस्य विचेष्टितं सूत उवाच शृणुशौनकयत्नेन दक्षेणैवं महामुनिः सत्कथामृतपानं च कृत्वा पृष्ठः पुनश्च यत् शक्तिशङ्करसंवादं ब्रह्म भूयपदप्रदं श्रुत्वा दक्षो महाभागप्पप्रच्छनिसत्तमः दक्ष उवाच किञ्चित्पुरातनं पुण्यं फलितं मे महाद्भुतं पीदमुद्गलते वक्त्रात् कथामृदमिदं मया धन्योऽसि कृतकृत्योऽसि गणेशे भक्तिमानसि गणेशाच्च परं नास्ति ज्ञातं त्वद्वाक्यदो मया वदमुद्गलमाहात्म्यं पुनर्गणपदे शुभं न तृप्तोऽहं महायोगिन् पीत्वा ब्रह्मामृतं महद शिवशैलसुदावादो, महानन्दप्रदायकः तत्रार्ष्टौ गणराजस्य ह्यवतारा श्रुता मया तेषां तच्चरितं चापि माहात्म्यं तेऽपि यन्महद श्रोतुमिच्छामि योगीश दयां कृत्वा वदस्व मे किमर्थं गणराजोऽयमवतारं करोति वै ब्रह्म भूयमयो देवस्तद्वदस्वमहामुनि परोपकरणार्थाय त्वादृशा मुनिसत्तमाः भ्रमन्ति धरणिं ब्रह्मन् पदिदेभ्यः सुखप्रदाः दर्शनस्पर्शनेनैव भाषणेन विशेषतः पावयन्दि जनान् सर्वान् साधवः समदर्शिनः सुद उवाच श्रुत्वा दक्षवचो रम्यं प्रत्युवाच समुद्गलः प्रहृष्ठो भावयुक्तस्य दक्षस्य च महात्मनः मुद्गल उवाच शृणु दक्षमहाभागधन्योऽस्सिन च संशयः येन त्वं कदां कथां पृच्छसि मां प्रभो पापिनां नास्तिकानां वै दाम्भिकानां कदाचन सत्कथामृदमानस्य चेच्चा नोत्पद्यते क्वचिद् द्वन्द्वभावविचारज्ञास्तथा सहनकारकाः भूतेषु समभावाश्च संसारतरणेरदाः परोपकार्येषु मदिष्टेषां प्रवर्तते एतादृशा महाभागा गणेशे सादराः प्रभो पथां गणपदेर्नित्यं शृण्वन्ति च श्रावयन्ति जनान्यान् भक्तिभावसमन्विताः अतस्त्वं सादरो भूत्वा शृणुषे पापनाशिनीं कृत्वा वर्धयसि प्रश्नं कथां गणपदे शुभां शृणु यच्च पुरावृत्तं मदीयं तवाग्रे कथयिष्यामि ये संशयो येन नश्यति अवतारकथामग्रे ज्ञास्यसि त्वं यथार्थतः गणराजपदं सर्वं प्राप्स्यसि त्वं च भक्तिमान् अहं तपसि संविष्टः शिलां जीवमाश्रितः दश पञ्च दिनेष्वेव द्वादश्यां मम पारणं द्रोणमात्रं चिनोम्यन्नमुपोषणसमन्वितः तेनान्नेन यथा न्यं पञ्चयागान् कृष्यहम् एवं बहुगते काले तपसे मयि संस्थिते देवाः सर्वे भयोद्विघ्नाः साधयिष्यति ऐन्द्रं पदं विद्धातुर्वा वैष्णवं शैवमेव च किं वाञ्छति महाभागो मुनिस्तपसि संस्थितः इति देवै प्रेषितस्तु मुनिस्सर्वार्थको विदः ममाश्रमे परीक्षार्थं दुर्वा स कोपवान् ययौ नग्न उन्मत्ततुल्यसन्नागतःपारणे मम मह्यं भिक्षां मुने देहि यया तृप्तो भवाम्यहम् इत्यूचेतु दत्तमन्नं तस्मै महात्मने न ज्ञातो मुनिमुख्योऽयं दुर्वासा आगदो गृहं तदन्नं सकलं भुक्त्वा द्रोणमात्रं महामुनिः उच्छिष्टं लिप्तवान् देहे गतो विकलमानसः मानसे मे महानन्तः प्राप्तो दक्षप्रजापते धन्यं तपो मदीयं वैतृप्तः सर्वान्नभुक् जनः उपोषणे समयुक्तोऽं तत्र तपसि पुनः सद्वादशी खस्रे पारणार्थं समाययौ दुर्वाससं पुनर्यादं तादृशं वेषमास्थितं महदा हर्षयुक्तेना पूजयं च महामुनिं सर्वान्नं भुक्तवान् सद्य एवं षड्वारमाययौ मम त्रिमासो पोषिदो भावयुक्तेन तपसा भवं तपसा भावशुद्धेन परितुष्टो महामुनिः स्वरूपं दर्शयामास योगरूपं महाद्भुतम् उवाच शुद्धिमापन्नोमुद्गलत्वं न संशयः गच्छ स्वर्गमहाभाग अक्षयं भोक्तुमर्हसि स्वर्गलोकाजिदा सर्वे त्वया क्षय्यप्रकाशकाः तपसा शुद्धभावेनाधुना तान् गच्छमुद्गल इत्युक्त्वा मांसदुर्वासा गत स्वाश्रममण्डले तस्मिन्नेव क्षणे स्वर्गाद्विमानं तत्र चागदं विमानात् पुरुषोद्दिव्यभूषणैर्भूषितः परः उत्तीर्य सुसान्निध्यमागधपूजितो मया उवाचमधुरं वाक्यं चलेति त्वं तथा बृहस्पतिपुरोगः स देव इन्द्रप्रतापवान् त्वदर्थं संस्थितस्वामिन्तेनाकं इदं विमानमारुह्य नानाभोगसमन्वितं मया सार्धमहाभाग चलस्वर्गं सुभोगतं सुत उवाच देवदूतवचोरम्यं श्रुत्वैवं मुद्गलो मुनिः विनया वनदो भूत्वा तं पप्रच्छ मुदान्वितः मुद्गल उवाच स्वर्गेषु सर्वलोकेषु के गुणाः सन्धितान्वद दोषाके तत्र तिष्ठन्ति श्रुत्वा यामि त्वरान्विदः सूत उवाच मुद्गलस्य वचः श्रुत्वा देवदूतस्तमब्रवीद विनयेन च सन्तुष्टो यथातव्यं विभागशः देवदूत उवाच कर्मभूमिरियं ब्रह्मन् भोगभूमिस्तु सामदा स्वर्गरूपानरादीनां कर्म भोगप्रदायिनी नाना सुखप्रदं तत्र गुणं वक्तुं न शक्यते ईप्सितं लभते सर्वं सदा यौवनसंस्थितिः क्लमस्वेदाधिकं तत्र नैव शीतोष्णदा तथा अप्सरोभिर्विहाराश्च कामरूपा गतिर्भवेद स्वकर्मतुल्यभोगाश्च भोक्तव्याः सर्वभावदः ये ये भोगादेहिनां च ते ते तत्र समास्थिदाह भोगभूमिः समाख्यादा स्वर्गरूपा महामुने वद तत्र च किं न्यूनं यध प्रभो त्वया नानाविधं कर्मतपसाधितं मुने स्वर्गलोकाकृतास्सर्वेक्षयास्तान् भोक्तुमर्हसि तत्र स्वर्गे त्रयो दोषास्तान् शृणुष्व महामुने इहकर्मकृतं लोकैर्भोक्तव्यं शुभरूपकं तत्र कर्मकृतं लोकैस्तदेव फलहीनकम् तेन लोके हि दुग्ध्यस्ति तदन्ते किं भवेदिति एतादृशं मया कर्म कृतं महद एतावन्तं च कालं मे स्वर्गवासो भविष्यति एकं दोषं महान्तं च जानीहि मुनिसत्तम द्वितीयं शृणु दोषं त्वं कथयामि सविस्तरं नाना स्वर्गशुमित्राणि नानाप्रीतिविवर्धनाः देवास्तत्र महाभाग सह तैर्मोदते स्वयं सत्कर्म तस्य तेनैव भुक्तं स्वर्गे यथा यथं पश्चात्पतनकालं तु तमध क्षणमेकं न तं स्नेहं पश्यति लोपकः पदनस्य भयं चित्ते दोषोऽयं पादरूपकः तृतीयं दोषरूपं यच्छृणुत्वं भावपूर्वकं तद्वदिष्यामि ते प्रीत्या येन ज्ञानं भवेत्परं सत्कर्मकारिणस्त्वन्ये महाभोगकरा मुने सन्धिस्वर्गेषु च अनेके तान् दृष्ट्वा तपतिः स्वयम् धिङ्मा न्यूनविहारेण तिष्ठामि स्वल्पपुण्यतः महापुण्यकरा अन्ये अधिगम् विहरन्त्युद सदा कृदि तपत्येवं स्वर्गभूमिस्वभावतः कृदितापात्मको दोषतृतीह्यः कधितो मया अनन्तगुणसंयुक्तं स्वर्गं जानीहि तापस दोषायिस्त्रिभिः समायोक्तं महापुण्यप्रभावतः धन्यत्वमुनिशार्दूल तत्स्वर्गे विजिते त्वया भुङ्क्ष्वभोगान्मनोज्ञान् वै चलशीघ्रं मया ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते दे मुद्गलदेवदूतसंवादो नामाष्टादशोऽध्यायः ओम्